अथ श्रीमहाभारते आदिपर्वणि एकचत्वारिंशोऽध्यायः सौतिरुवाच एवमुक्तः स तेजस्वी शृङ्गीकोपसमन्वितः मृतधारं गुरुं श्रुत्वा पर्यतप्यतमन्युना सतं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् अपृच्छत्तं कथं तातः समेद्य मृतधारकः उवाच ज्ञा परीक्षिता तातमृगयाम् परिधावता अवसक्तः पितुस्तेद्या मृतः स्कन्धे भुजङ्गमः किम्मे किम् पित्रा कृतम् तस्य राज्ञो निष्टम् दुरात्मनः ब्रूहितत्कृशतत्त्वेन पश्यमे तपसोबलं। बलम् उवाच स राजा मृगयाम्यातः परीक्षिदभिमन्युजः ससारमृगमेकाकी सा विद्ध्वा बाणेन शीघ्रगम् न चापश्यन्मृगम् राजा चरंस्तस्मिन् महावने पितरम् ते स दृष्ट्वैव तम् स्थाणुभूतम् तिष्ठन्तम् क्षुत्पिपासा श्ररः पुनः पुनर्मृगम् नष्टम् पप्रच्छत्पितरम् तव स च मौनव्रतोपेतो नैव तम् प्रत्यभाषत तस्य राजा धनुष्कोट्या सर्पम् स्कन्धे समासजत शृङ्गिस्तव पिता सोऽपि तथैवासे यदव्रतः राजा स्वनगरम् प्रस्थितो गजसाह्वयम् सौतिरुवाच श्रुत्वैव मृषिपुत्रस्तु शवम् स्कन्धे प्रतिष्ठितम् कोपसंरक्तनयनः प्रज्वलन्निव आविष्टः स हि कोपेन शशा तदा वायुपस्पृश्य तेजस्वी क्रोधवेगबलाकृतः शृङ्गुवाच योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्यः स्कन्धे मृतम् समा साक्षीत्पन्नगम्राज किल्बिषी तम् पापमतिसंक्रद्धस्तक्षकः पन्नगेश्वरः आशीविशस्तिग्मतेजा यमस्य सदनम् प्रति द्विजानामवमन्तारम् कुरु सौतिरुवाच इति षप्ति सङ्क्रुद्धः शृङ्गी पितरमभ्यगात् आसीनम् गोप्रजे तस्मिन् वहन्तम् शवपन्नगम् सतमालक्ष्य पितरम् शृङ्गी स्कन्धगतेन वै शवेन भुजगेनासीत् भूय क्रोधसमः कुलः दुःखाश्चाश्रूणि मुमुचे पितरम् चेदमब्रवीत् श्रुत्वे कुरुकुलाधमः सप्तमेहनितम् पापम् तक्षकः पन्नगोत्तमः वैवस्वतस्य सदनम् नेता परमदारुणम् तमब्रवीपिता ब्रह्मंस्तथा